श्रीमद्भागवतमहापुराणं दसंस्कन्ध अस चतुः पञ्चाशत्तमोऽध्यायः श्रीशोकुवाच तया परित्रासविकल्पिताङ्गया शुचा वसुष्यन्मुखरुत्धकण्ठया कातर्विसंसित हेम हेममालया गृहीतपादकर्णो न्यवर्तत चैलेन बध्वातमसाधुकारिणं तस्मश्रुकेशम्प्रवपन्परिप्यरूपवयत् तावाल्मरतोपरिसैन्यमद्भुतं यदुप्रवीलानलनीं यथा राजा गजाः कृष्णान्तिकम् उपव्रज दधि सुतस्र रुक्मिणं रुक्मिणम् तथा भूतं भतप्रायं दृष्ट्वा शङ्कर्षणो विभो विमुच्यबद्धं करुणो भगवान् कृष्णमब्रवीत् तथा द्विद्वितं त्वया कृष्ण कृतन्मस्म जुगुप्सितं वपनं स्म शृकेशानां वैरूप्यं सुहृदो वध नैवास्मान् साध्व्य सुयेथा भ्रातुर्वैरूप्यचिन्तया सुखदुःखदो न चान्योऽस्ति यत् स्वकृतभुक्पुमानं बन्धुर्वदार्हदोषोऽपि न बन्धोर्वसमर्हते त्याज्य स्वेनैव दोषेण हत किं हन्यते पुनः क्षत्रियाणायमयं धर्मप्रजापतिर्विनिर्मितः भ्रातापि भ्रातरं हण्याद्येन घोरतरस्ततः राज्यस्य भूमिर्वित्तस्य स्त्रियो मानस्य तेजस माणिनोऽन्यस्य वा हेतो तवेयं विषमा बुद्धि सर्वभूते सुदरिन्दुर्हितां जन्मन्यसे सदा भद्रं श्रेतां भद्रमज्ञवत् आत्ममोहो निरामे स कल्पते देवमायया सुहृद्वहेदुर्दासीन इति देहात्मानिनाम् एक एव परोषात्मा सर्वेषामपि देशिनां नानेव गृह्यते मूढैर्यथा ज्योतिर्यथा नभः देह आद्यन्तमाने जब्यप्राण ज्यप्राणगुणात्मकः आत्मन्य विद्याक्लिप्तः संसारयति देहिनम् नात्मनोऽन्येन संयोगो वियोगश्चासतः सती तद्धेतुत्वान् प्रसिद्धे दुर्ग्रूपाभ्यां यथा रवेः जन्मादि अस्तु देहस्य विक्रियानात्मन क्वचि कलानाम्यु नैवेन्दुर्मृतिर्ह्यस्य कुहुरिव यथाशयान् आत्मानं विषयान् फलमेव च अनुभुङ्क्तेऽप्य सत्यर्थे तथाप्नोद्य बुधोभवम् तस्मादज्ञानजं शोकम् आत्मशोषविमोहनम् तत्त्वज्ञानेन निहृत्य स्वस्था भवसि चिस्मिते श्रीशो उवाच देवं भगवता तन्मे रामेण प्रतिबोधिता वैमनस्यम् मनोबुद्ध्या समाददे प्राणावशेषमुत्सृष्टौ दिभिर्हतबलप्रभ स्मरन् विरूपकरणं वितथात्ममनोरथः चक्रे भोजकटं नाम निवासाय महद्पुरम् अहत्वा कृष्णं प्रद्युह्य यवीयसिं कुण्डिनं न प्रवेक्ष्यामेत्युक्त्वा तत्रावसदृशां भगवान् भिस्मकसुतामेवं निर्जित्य पुरमालीयविधवद् उपयेमे कुरुद्वः तदा महोत्सवूर्णिणां यद्पुर्यां गृहे गृहे अभूदनन्यभावानां कृष्णे यदुपतौ नृप नरा नार्यस्य मुदिता प्रमिष्टमणिकुण्डलाः पारिबर्हमुपाजौहों वर्योचिद्रवाशो धा विष्णुर्यो पूण्युत्तभेतेन्द्रकेतुभि विचित्रमाल्याम्बरत्नतोरणै भवतिद्वायुर्प्रक्लिप्लब्दमङ्गलैः आपूर्णकुम्भा गुरुधूपदीपकै सिक्तमार्गामदत्युद्ध्ये आहुतप्रेष्ठभुभुजां गजै द्वासूं परामृष्टरम्भा पूगोपशोभिता कुरु मिथो मुदिरे तस्मिन् सम्भ्रमात् परिधावताम् रुक्मिण्याहरणं श्रुत्वा गीयमानं ततस्ततः राजानो राजकन्याश्च बुभुर्वस्मिताः द्वारकायां भुद्राजन्महामोदपुरोकुशां रुक्मिण्या ते श्रीमद्भागवते महापुराणे दशमस्कन्धे उत्तरार्धे रुक्मुण्युद्वाहे चतुष्पञ्चाशत्तमोऽध्याय